गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् फिफ्टि सोमकान्त उवाच कथं प्रादुर्भूद्देवः पुरस्तस्य महात्मनः भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः भृगुरुवाच यथा तत्पुरदः प्रादुरासीद्देवो गजाननः तत्सर्वं कथयिष्ये कं सादरं शृणुभूमिप रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः गजाननोऽब्जनयनः अनेकः सूर्यसङ्कासो दिव्यकुण्डलमण्डितः अङ्गदेमुकुडं बिभ्रत्कङ्कणे शेषमेव च मुनिरुद्धं निरीक्ष्यैनं निमील्यनयने पुनः चकम्बे भयसन्द्रस्तस्मृत्वा मन्त्रं मुमूर्च्छच्च तदोब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव भृगुरुवाच श्रुत्वेद्धं मधुरां वाणीं जहर्षमुनिपुङ्गवः मूर्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवद यदो दृष्टः सर्वरूपो गुणातीतो किलाशयः चिदानन्दखनोनन्दो किल कारणकारणम् थयन सवरदम तम गजाननम मुनिवाच निर भ्रांति सर्वा मे य भक्ति दृढ़ा अषादशुरा सियां कर्णे क्षमा तवा स्तवने शक्ति सत्कुष्वो हृदयेव स देवेश प्रसन्नश्चेन्ममानख गजानन उवाच त्वया यत्प्रार्थितम् वत्स सर्वमद्य भविष्यति सर्वमान्यो व्यासनामाः सर्वपावनपावनः अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः नारायणपरख्यादा गुणैकीर्त्या श्रियापि च अष्टादशपुराणानां कर्तात्वं हि भविष्यसि तथैवोपपुराणानां तावतां च मुनीश्वर त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम् स्मरणं वा ततस्तम्भोजादो वाण्या महाद्भुदः धातुर्मुखाच्रुतो यस्मान्महिमा तेन मेनख विलीनं सर्वमधुना प्राविशामि तवोदरं भृगुरुवाच एवमुक्त्वा प्राविशत्स तन्मुनेरुदरं विभुः प्रकाशमतुलं लेभे सूर्यकोडिसमं मुनिः दीपयामास कखुभस्तदो मूर्तिं विधाय सः गजाननस्य महदीं प्रासादे स्तापयच्छ सः पूजयामास विविधैरुपचारैः पृथक् सिद्धिक्षेत्रमिदं सर्वलोहानां पावनं दृशोः अनुष्ठानवदां मन्द्रनासिद्धिप्रदं शुभम् एवमुक्त्वाप्यनुज्ञाप्यव्यासो नारायणस्तदा पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणो मुखाद प्राह वैशम्पायनाय तदस्तद्भुवि पप्रथे तदेतदखिलं त्यद्य मयापि कथितं नृप नानेन ना सदृशं किञ्चित् पावनं त्रिषु विद्यते लोकेषु परमानन्ददायकं नृपसत्तमा सोमकान्तनच्चाख्येयममिदं दुष्टजने दुष्टजनेत्वया विनीतेषु जभक्तेषु त्वयाख्येयं प्रयत्नतः मया निरन्तरमिदं जप्यते स्मर्यतेऽपि तवापि करुणायोगात्कथिदं राजसत्तम गजाननध्यानपरो जप परोगणेशणे क्रीड़ाखंडे व्यासनुग्रह सिद्धिक्षेत्रवर्णन नाम पंचाशदुतशतमोध्याय ओम